श्रीमद्भागवतमहापुराणं नवमि स्कन्ध दूर्वासाजीकी दुःखनिवृत्ते श्रीशो उवाच एवं भगवतादिष्टो दूर्वासा सकृतापितः अम्बरी समुपावृत्य तत्पादौ दुःखितो गृहीत तस्य सोद्यमनं व्यक्ष्य पादस्पर्शविलज्जितः अस्तावीत तद्धरेरस्त्रं कृपया पीडितो भृशम् अम्बरीसुवाच त्वम् अग्निभगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः तमापपस्त्वं क्षितिर्व्योमवायुर्मातृन्द्रियाणि मा च सुदर्शन्नमस्तुभ्यं सहस्राराच्युतप्रिय सर्वासृघातिन् विप्राय स्वस्ति भूया इडस्पते त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलियज्ञभो त्वं लोकपाल सर्वात्मा त्वं तेजपौरुषं परं नमः सुनाभाखिलधर्मसेतवे यधर्मशीलासुरधूमकेतवे त्रैलोकगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे ग्ले त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च जितो महात्मनां धुरत्यस्ते महिमा गिरां पते तद्रूपमेतत्सदसन् परावरं यदा विशिष्टतमनञ्जनेन वै बलं प्रविष्टो जितदैत्यदानवं बाहूदरो भङ्घ्रिशिरोधराळी वृक्नन्नजस्रं प्रसने विराजसे तं जगत्रालखलप्रहालनै निरूपित सर्वसहो गदावृतां विप्रस्ति चास्मन् कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हिन यद्यस्ति दत्तम् इष्टं वा वा स्वनिष्ठितः कुलं नो विप्रदैवं चेद्विजो भवतु द्विज्वरः यदि नो भगवान् प्रीत एक सर्वगुणाश्रयः सर्वभूतात्मभावेन द्विजो भवतु विज्वरः शेषु कुवाच इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् असाम्यः सर्वतो विप्रम् प्रभद्रादियाञ्चयां स मुक्तो स्राग्नितापेन दुर्वासा स्वस्तिमास्तुतः प्रससंसतमुर्विसंयुज्या न परमाशिषः दुर्वासा उवाच अहो अनन्तदासानां महत्त्वं दृष्टमध्य मे कृतागसोऽपि यद्राजन्मङ्गलानि समीहसे दुष्करको नु साधूनां दुश्चजो वा महात्मनां य संगृहीतो भगवान् सात्वतां ऋषभो हरिः जन्नामश्रुतिमात्रेण पुमान भवति निर्मलः तस्य तीर्थपद किं वा दासानामवशिष्यते राजन्ननुगृहीतोऽहं तयाती करुणात्मनां मधुघं पृष्ठतः कृत्वा प्राणायन्मेऽभिलक्षिताः राजा तमकृताहारप्रत्यागमनाकाङ्क्षयां चरणावोपसंगृह्य प्रसाद्य समुभोजयत् सोषित्वादितमानीतम् आतिथ्यं सार्वकामिकं तृप्तात्मानुभूतिं प्राह भुज्यतामिति सादरं प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै दस्पर दर्शनस्पर्शनालापै आतिथ्येनात्ममेधसां कर्मावदात्मेतत्ते गायन्ति स्वस्योमुः कीर्तिं परं पुण्यां च कृतयिष्यति भूरि श्रीशुकुवाच एवं संकृतराजानं दुर्वासा परितोषितः ययो विहाय श्यामं च ब्रह्मलोकमहेतुकम् संवत्सरो त्यगाद्वन् यावतानागतो राजाब्धं राजा गते च दुर्वाससि सोम्बरीशो द्विजोपयोगात् पवित्रमाहरन् ऋषेर्विमोक्षं व्यसनं च बुद्ध्वा मेनेष्वीर्यं च परानुभावम् एवं विधालेकगुणसराजा परात्मने ब्रह्मणि वासुदेवे क्रियाकलापये समुवाहभक्तिं ययाभिरिञ्चान् निर्याचकार अथाम्बरीशतनयेषु राज्यं समानशीलेषु विसृज्यतीर वनं विवेशात्मनिवासुदेवे मनोदधन्ध सुगुणप्रवाह इत्येतत् पुण्यमाख्यानम् अम्बरीशस्य भूपतेः सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् इति श्रीमद्भागवते महापुराणे पारहिंसां चैतायाम् नमस्कन्धे अम्बरीश्चरितं नाम पञ्चमोऽध्यायः